श्रीहरि नमः अथ चतुर्दशोऽध्यायः उद्धव उवाचां वदन्ति कृष्णश्रेयांसी बहुनि ब्रह्मवादिनः तेषां विकल्पप्राधान्यम् उताहो एकमुख्यता भवतोदाहृतस्वामिन् भक्तियोगोऽनपेक्षितः निरस्य सर्वतःसङ्गं येन त्वय्याभिषेन्मनः श्रीभगवानुवाच कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता माया तौ ब्रह्मणे प्रोक्ता धर्मो यस्यामदात्मकः तेन प्रोक्ता च पुत्रायं ततो भृग् पादयो गृह्णन् सप्त ब्रह्ममहर्षयः केभ्यः पितृभ्य सत्पुत्रा देवदानवगुह्यकाः मनुष्या सिद्धगन्धर्वा स विद्याधरचारणाः किं देवा किं नरा पुरुषादयः भक्पयस्तेषां प्रकृतयो रजसत्त्वतमो भुवः याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तत यथा प्रकृति सर्वेषां चित्रा वा स्रवन्ति एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयो नृणां पारम्पर्येण केषाञ्चित् पाघण्टमतयो परेम् मन्मायामोहि दधिय पुरुषाः पुरुषवर्षभा श्रेयो वदन्ति अनेकान्तं यथा कर्म यथा धर्ममेके यशश्चान्ये कामं सत्यं दमं समम् अन्ये वतन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनं केचित्यज्ञतपोधानम् प्रतानियमान्यमान् आद्यन्तवन्त एवैषां लोकाकर्म विनिर्मिताः दुःखो दर्कास्तमो निष्ठा शुद्रानन्दासु चार्पिताः सर्वतः मयात्मना सुखं यत्यत् कुतश्चात् अकिञ्चनस्य धान्तस्य सान्तस्य समचेतसः मया सन्तुष्टमनस सर्वा सुखमया दिशः न पारमेष्ट्यं न महेन्द्रदिष्ण्यं न सार्वभौमं अपुनर्भवं वा मय्यर्पितात्मायिच्छति न तथा प्रियतम आत्मयो निर्नशङ्करः न च शङ्कर्षणो न श्री नैवात्मा च यथा निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् अनुव्रजां नित्यं भूये तिरेणुभिः निष्किञ्चन मय्यनुरक्तचेतस शान्ता महान्तो किल जीववत्सलाः कामैरनालब्धधियो जुषन्ति यत् तन्नैरपेक्षं न विदुःसुखं मम पाद्यामो नापि मद्भक्तो विषयैरजितेन्द्रियः प्रायः प्रकल्भया भक्त्या विषयैर्नाभिभूयते यथाग्निसुसमृद्धार्च्ये करोति एतां सिपस्म तथा मद्विषया भक्तिरुद्धवैनां शिकृत्स्न सहा न साधयति योगो न सांख्यं धर्म यथा भक्तिर्ममोर्जिता भक्त्याकमेकया ग्राह्य भक्तिः पुनातिमन्निष्टा स्वपाकानपि सम्भवा धर्मः सत्यधयो बेथो विद्यावातपसान्विता मत् भक्त्या भेदमात्मानं न सम्यक् प्रपुनातिहीं कथं विना रोमघर्षं द्रवता भक्त्या विनाशयः वाग्गद्गता द्रवते यस्य चित्तं रुदत्य भीक्ष्णं हसति क्वचित् च विलज्ज उद्घायति दृश्यते च मद्भक्तियुक्तो भुवनं पुनाति यदाग्निना ममलं जगाति मातं पुनस्वं भजते च रूपम् आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो मां यथा यथात्मा परिमृज्यते सौ मत्पुण्यगाथा श्रवणाभिधानैर् तथा तथा पश्यति वस्तु सूक्ष्मं चक्षूर्यथैवाञ्जनसम्प्रयुक्तं विषयान् ध्यायतश्चित्तम् विषयेषु विषजते मामनुस्मरतश्चित्तं मय्येव प्रविलीयते तस्मात् असदभिध्यानं यथा स्वप्नमनोरथं हित्वा मयि समाधस्त्व मनोमद्भावभावितं स्त्रीणां स्त्रीसङ्गिनां सङ्घं त्यक्त्वा दूरत आत्मवान् क्षेमे विविक्त आसीनश्चिन्तयेन्माम् अतन्द्रितः न तस्य भवेत् क्लेशो बन्धश्चान्यः प्रसङ्गतः योषित्सङ्गात्यथा पुंसो यथा तत्सङ्गिसङ्गतः उद्धवो ध्यायेन्मुक्षु एतन्मे ध्यानं त्वं वक्तुमर्हसि श्रीभगवानुवाच सम आसीन समकायो यथा सुखं हस्तावोत्सङ्ग आदाय स्वनाशाग्रकृतेषणः प्राणस्य शोधयेन्मार्गं पूरकुम्भकरे च विपर्येणापि सनैः अभ्यसेन् निर्जितेन्द्रियः हृद्यविच्छिन्नमोङ्कारं घण्टानाधं विषोर्णवत् प्राणेनोदीर्य तत्राथ पुनः संवेशयेत्स्वरम् एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् दशकृत्वस्त्रिश्रवणमासात् अर्वाग्जितानिलः हृत्पुण्डरीकं मन्तस्थम् ऊर्ध्वनालामधोमुखं ध्यात्वोर्ध्वमुखं वुन्निद्रम् अष्टपत्रं सकर्णिकं कर्णिकाया न्यसेत्सूर्य सोमाग्नीनुत्तरोत्तरं वग्निमध्ये स्मरेत्रूपं ममैतध्यानमङ्गळम् समं प्रशांतं सुमुखं दीर्घचारु चतुर्भुजं सुचारु सुन्दरग्रीवं सुखपोलं सुचिस्मितं समानकर्णविन्यस्त स्फुरन्मकरकुण्डलं हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनं शङ्खचक्रगता पद्मवनमाला विभूषितम् नो पुरैर्विलसत्पादं कौस्तुभप्रभयायुतं द्युमत्किरीटकटकं कडिसूत्राङ्गतायुधं सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षणं सुकुमारम् अभित्यायेत् सर्वाङ्गेषु मनो दत्तत् इन्द्रियाणि इन्द्रियार्थेभ्यो मनसा कृष्य तन्मनः बुद्ध्यासारथिना धीरः प्रणयेन्मयि सर्वतः तत्सर्वव्यापकं चित्तम् आकृष्य यैकत्र धारयेत् नान्यानि चिन्तयेद् भूयं सुस्मितं भावयेन्मुखं तत्र लब्धवतं चित्तम् आकृष्य व्योम्निधारयेत् न किञ्चिदपि चिन्तयेत् एवं समाहितमतिर्मामेव आत्मानमात्मनि विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषिसंयुतं ध्याने नेत्तं सुतीव्रेण उञ्जतो योगिनो मनः संयाशत्याशु द्रव्यज्ञानक्रियाभ्रमः इति श्रीमद्भागवते मखापुराणे एकादशस्कन्ते चतुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमघराजकी जय